मुद्गलपुराणं कण्डं सिक्स् विकटचरितम् अध्यायं फैव् मुद्गलदेवसमागमम् श्रीगणेशाय नमः शक्तय ऊचुः अहो कामासुरस्यैवं प्रभावः परमाद्भुतः शस्त्रहीनेन माये वैदिदं सर्वं चराचरं एतादृशो महादैत्यो नश्रुदस्ते श्रुतस्ते भुजाद अधुना तस्य नाशं तु वददेवि सुदुर्गमम् आदिशक्तिरुवाच कालिमुख्याशृणुध्वं च शक्तयो मे वचोहितम् यथा तं गणनाथः स जिज्ञे सर्वैः सुदुर्जयं ये स्वस्वभासंस्थं सुदुर कामासुरं महानृपं जगुर्दैत्याधिपाः सर्वे कृताञ्जलय आदराद दैत्ये श्यावुजुः महाराज महाराज कृतकृत्योसि निश्चितम् तथापि शृणुवाक्यं न सर्वेषां ते हितावहं चराचरं तु दैत्येशा जित्वा राज्यं प्रचक्रिरे कालेन निहता सर्वे देवैश्चद्मप्रदर्शिभिः अतस्त्वमपि राजेन्द्रशत्रुभावसमाश्रितान् देवान् शम्भुमुखान् सर्वान् मारय स्वप्रयत्नदः अमरा वेदवादेशु कथिता देवपागणाः शस्त्रादिभिश्च ते सर्वे न मरिष्यन्ति कर्षिचित् अत शृणु महा शत्रुनाशकम् कर्महीनप्रभावेण मरिष्यन्त्यमरा किल कर्मान्ना देवता सर्वा नष्टेन्नेनाश्यमाप्नुयुः पुरा प्रोक्तम् तु वेदेषु तादृश्यं गुरुमानद तेनैवामररूपाश्च वयम् निहतकण्टकाः भवामो नात्र प्रसादेन नित्यदा तेषाम् तद्वचनम् श्रुत्वा कामासुरश्च हर्षितः साधु साधु भवद्भिः सङ्कथितम् तानुवाचः अधुना दैत्यपैः सर्वैः कर्तव्यम् कर्मखण्डनम् महाबलाश्च गच्छध्वम् भूमिम् सर्वां मदाज्ञया तथेदितं प्रणम्यादौ हर्षा दानवमुख्यकैः पृथिव्यां तैकृतं कर्मखण्डनं मदसंयुतैः ब्राह्मणादींश्च सन्ताड्य वर्णाश्रमविवर्जितान् चकृस्ते पाप कर्माणो दानवा दुरजायः कामस्य प्रतिमा दुष्टैः कृताष्टैष्ठापितास्ततः देशे देशे पुरे ग्रामे जनैः पूज्या इमा मदाः तदोहाहारवं सर्वे वर्णाश्रमयुधा जनाः स्नानादि नैव चक्रुस्ते दैत्यसन्त्राः नस्वधा न नस्वधा कुत्र न वषट्कार एव च वर्णाश्रमविहीनाश्चातिष्ठं स्ते ब्राह्मणादयः के जिन्मुनिगणादेव्यो महोग्रं वनमाश्रिताः स्वधर्मनिरतास्तत्रा वसंस्ते विकदज्वराः ततो भवन्महादेव उपोषणपरायणाः शोकसंविघ्नचित्तास्ते मिलिता भयविह्वलाः कामासुरस्य नाशार्थं विचारं चक्रुरञ्जसा न किञ्चित् प्राभुरभवन्नदिदुःखयुतास्ततः तत्राजगामयोगेन्द्रो मुद्गलः परमार्थविद तं दृष्ट्वा देव, देवास्ते हर्षिता अभवन्बुथम् उद्धाय तं प्रणेमुस्ते शम्भुविष्णुमुखाः सुराः भृग्वादयश्च योगीन्द्राः पूजयामासुरादराद आसने सुखमासीनं कृत्वा करपुडान्मुनिं शिवश्चिन्तातुरोऽत्यन्तं पप्र च विनयान्विदः श्रीशिव उवाच धन्या वयं महायोगिन् दर्शनेन च दे प्रभो गाणपत्यस्य पूज्यस्य सर्वेषां पावनात्मनः अस्माकमादिकाले तु गुरुर्भ्रुशुण्डिकः परः तेन सम्बोधिता विप्र वयं ज्ञानयुधा मुदा गुरुस्तस्य मुनीन्द्रस्य सर्वसिद्धिप्रदायकः गाणपत्याग्रणीसाक्षात् समस्तेन न वर्धते शिष्यशिष्यान् महाभाग कारय स्वाधुना प्रभो नो चेदन्नविहीनान्नो मृदान् पश्यसि देवपान् कमासुरेण दुष्टेन स्थानभ्रष्टा कृदा वयम् अधुना कर्म नाशाद्वैहीना अन्नेन वै कृताः उत्पत्तिस्थितिसंहारकर्तृभ्यो मरणं मुने उत्पत्तिस्थिति संहार युक्तेभ्यस्तस्य नो भवेद् अधो योगीन्द्रमुख्यत्वम् वधोपायं महागुरो कामासुरस्य नाशार्थं करिष्यामो जवान्विताः चराचरस्य रक्षार्थं कुरुकार्यमनुत्तमं दुष्टं संहर मार्गदर्शनभावदः यथा ज्ञानोपदेशेनाज्ञाननाशं करोषि तु तथा हिंसानदे स्वामिन् भविष्यदि कदाचन इति तस्य वच श्रुत्वा मुद्गलः शङ्करः स्यतु दयया गणनाधं स स्मरन् जगाद तं वचः मुद्गल उवाच शृणु शम्भो जगन्नाथ विष्णोदेवादयो वचः कथयामिहितार्थाय कामासुरविनाशनम् साक्षादीश्वररूपस्त्वं गणेशांस्यः सदाशिव तवाग्रे किमहम् भ्रूयां विद्यानाथस्य मानद तव दर्शनमात्रेण कृदकृत्या भवन्ति वै नरा ईशनसन्देहस्तं किं भ्रूमि भयापहं तथापि कथयिष्यामि त्वदाज्ञापालनार्थतः गणेशं सर्वभावेन भजध्वं सर्वदेवदाः स्वानन्दस्थ त्रिभिर्भावैहीनो देवो न संशयः सतं क्षणार्थमत्रेण हनिष्यदि महासुरम् पूर्वस्मिन् यत्र वैशम्भो सिद्धिप्राप्ता त्वया तथा देवैः सर्वाैश्च विप्राैश्चाधुना तत्र गतिं भूस्वानन्दे महाभाग आराधय गजाननम मयूरेशंधन सर्विधिप्रदायक्षरण मंत्रेण चरधं तप उत्तम स्वल्पन विघ्ने शसन्न भविता स्वयं मुक्त महायोगी मुद्गलस्ता प्रणम्यतु जगामस्वेच्छया योगाद्गणेश भजने रथः ततो देवाश्च विप्रास्ते हर्षयुक्ता बभूविरे मयूरेशं समाजग्मुर्दण्डकारण्यगम् परम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे देव समागमो नाम पञ्चमोऽध्यायः ओ